हरि ओम् श्री सीतारामचन्द्राभ्यं नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे अष्टादश सर्गः शरणागत रक्षणस्य महत्वं स्वकीयं च प्रतिपाद्य श्रीरामस्य विभीषणेन सह समागमः अथ रामः प्रसन्नात्मा श्रुत्वा वायु सुतस्य है प्रत्यभाषत श्रुतवान्नात्मनिष्ठितम् ममापि च विवक्षाति काचित् प्रतिविभीषणम् श्रोतुमिच्छामि तत्सर्वम् भवद्भिः श्रेयसि स्थितै मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन दोषो यद्यपि तस्य स्यात् सदामेतदगर्हितं सुग्रीवस्तथसद्वाक्यम् आभाष्य च विमृश चे तुभतरम वाक्यवाच हरिपुंग वा दुष्टो वाप्य दुष्टो व वा कि ईदृशम व्यतन प्राप्त भ्रातरम यजे को नाम स भव तस्मे न परत्यजेत वनराधिपतेर्वाक्यम श्रुत्वा सर्वानुदीक्षतु ईषदुत्स्मयमानस्तु लक्ष्मणम् पुण्यलक्षणम् इति होवाच काकुत्सु वाक्यं सत्य पराक्रमः अनधीत्य च शास्त्राणि वृद्धान्ननुपसेव्य च वक्तुम् यदुवाच हरीश्वरः अस्ति सूक्ष्मतरम् किञ्चित् यथात्र प्रतिभाति प्रत्यक्षम् लौकिकम् चापि वर्तते सर्वराजसु अमित्र तैत्कुलीना च प्रतिदेशकीर्तितः व्यचनेषु प्रवर्तारे तस्मात् अयम् ह्यागतः पापा तैत्कुलीना च मानयन्ति सकन्हितान् एषे प्रायु नरेन्द्राणाम् शङ्कनीय सुशोभनः यस्तु दोष त्वया प्रोक्तो ध्यादानेरी बलश्च च तत्र की ते कीर्तयिष्यामि यथा शास्त्रमिदं शृणु न वयं तत् कुलीना च राजकाङ्क्षी च राक्षसः पण्डिता हि भविष्यन्ति तस्मात् विभीषणः अव्यग्रा च ते भविष्यन्ति सङ्गताः प्रणादश्च महानेशो अन्योन्यस्य भयम् आगतम् इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः न सर्वे भ्रातरस्था भवन्ति भरतोपमा मद्विधा वापितु पुत्र श्रहृतो वा, वा भवद्विधा एवम् सुग्रीवः स लक्ष्मणः उत्थाय इदम् प्रणतो वाक्यमब्रवीत् रावणेन प्रणिहितम् सम्भवेहि निचाचरम् तस्याहं निगृहम् मन्ये क्षमं क्षमवताम्बर राक्षसो जिम्हया बुद्ध्या सन्दिष्टोऽयम् ह्यागतः प्रहर्तुं प्रै विश्वसि मयि वानघ लक्ष्मणे वा महाबाहुवध्य सचिवयसः रावणस्य नुशंसस्य प्राताह्य च विभीषणः एवम् उक्त्वा रघुश्रेष्ठम् सुग्रीवो वाहिनी पतिः वाक्यन्यो वाक्यकुशलम् ततो मौनम्पागमयत् स सुग्रीवस्य तद्वाक्यम् राम श्रुत्वा विमृश चे ततः शुभेतरम् वाच्यम् उवाचे हरिपुङ्गवम् तद्दृष्टो व्याप्य दृष्टो वा किम्बे च रजनेचरहे सूक्ष्मप्यहितम् कर्म कर्तुम् मम शक्तः कथञ्चन पिशाचान् दानवान् यक्षाम् पृथिव्याम् चैव राक्षसन् अङ्गुल्यग्रेण इच्छन् हरि गणेश्वरः श्रूयते हि कपोतेन शत्रु चरणमागतः अर्चितश्च यथा न्यायम् स्वच्छ मासे निमन्त्रितः सहितं प्रतिजग्राहे भार्या हर्तारमागतं कपोतो अनदश्रेष्ठ किं पुनर्मः ऋषे कण्वस्य पुत्रेण कण्डुना परमर्षिण शृणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना बद्धाञ्जलिः पटम् दीनम् याचन्तम् चरणागतम् नान्यादानुषन्स्यार्थम् अपि शत्रम् परन्तप आर्थो वा यदि वा दृप्त परेषाम् शरणम् गतः अरित्राणाम् परित्यज रक्षितव्यः कृतात्मना स चेत् भयात् वा मोहाद्वा कामाद्वापि न रक्षति स्वया विनष्ट पश्यतस्तस्य रक्षिण शरणम् गतः आदाय सर्वं गच्छेद रक्षितः दोषो महानत्र प्रपन्नानाम् रक्षणे प्रस्वर्ग्यम् च यशस्वम् च बलभीर्य विनाशनम् करिष्यामि यथार्थम् तु कण्डोर्वचनमुत्तमम् धर्मिष्ठम् च यशस्व्यम् च स्वर्ग्यम् च तु सकृदेव प्रपन्नाय तवास्मीति च याचते अभयम् सर्वभूतेभ्यो ददान्ये तमै आनयनम् हरिश्रेष्ठ दत्तम् अस्या भयं मया विभीषणो सुग्रीव यदि वा रावण स्वयम् रामस्य तु वचः श्रुत्वा सुग्रीव प्लवगेश्वरः पत्य भाषतकाकुत्थम् सौहार्देनाभिपूरितः किमत्र चित्तम् धर्मज्ञ लोकनाथ शिखामडे यत् सुमार्यम् प्रभाषेथ सत्ववान् तत्पथे स्थिते मम चाप्यन्तरात्मायम् शुद्धम् वेत्ति विभीषणम् अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः तस्मात् क्षीप्रं सास्माभिः तुल्यो भवति राघवे विभीषणो महाप्राज्ञ के त्वं चाभ्युपै तु नः ततः सुग्रीवचो निशम्य तत् हरीश्वरेण भीतं नरेश्वरे विभीषणेनाशु जगाम पतत्रीराजेन यथा पुरन्दर इत्याशे श्रीमद् रामायणे वाल्मीकि अधिकारे अष्टादश सर्गः श्री सीता